श्रीमद्भागवत् महापुराणम् एकादशि स्कन्धम् अथ विंशोऽध्यायः ज्ञानयोग कर्मयोग और्भक्तियोग उद्धौ उवाच विदेश्च प्रतिषेधश्च निग्मोषीश्वरस्य ते अवेच्छते रविन्दाख्य गुणं दोषं च कर्मणाम् वर्णाश्रम् विकल्पम् च प्रतिलोमानुलोमजम् द्रव्यदेश वयकालान् स्वर्गम् नरकमेव च गुणदोषभिदादृष्टिम् अन्तरेण वचस्तव निश्रेयसम् कथम् ऋणाम् निषेधविधिलक्षणम् पितृदेव मनुष्याणाम् वेदश्चक्षो सवेश्वर श्रेदस्त्वनोपलब्ध्यर्थे साध्यसाधन्योरपि गुणदोषाभिधादेशे निगमाद्देन हि स्वतः निग्मेनापवादश्च भिदाया इतिह ह्रमः श्रीभगवानुवाच योगाश्रयो मया प्रोक्तानृणाम् श्रेयोभिधि श्रयाम् ज्ञानम् कर्म च भक्तिश्च नोपायोऽन्योचि कुत्रचित् निर्विन्नानाम् ज्ञानयोगो न्यासि नामि ते स्वनिर्मिण्णचित्तानां कर्मयोगस्तु कामिनाम् यदीच्छया मत्कथादौ जातश्रद्धस्तु यपुमान् न ना निर्विण्णो नातिशक्तो भक्तियोगोऽ सिद्धिदा तावत्कर्माणि कुर्वीत न निर्विद्येत यावताम् मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते स्वधर्मस्थो यजन् यज्ञै काम उद्धव न स्वर्ग स्वर्गनरकौ यद्यन्यन्न समाचरे अस्मिन् लोके वर्तमान स्वधर्मस्थो नख शुचि ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वाय दीक्षया स्वर्गिणोऽप्येतमिक्षन्ति लोकं निरैणस्तथा साधकम् ज्ञानभक्तिभ्याम् उभयम् तत् साधकम् न नरस्वर्गतिम् काङ्क्षेन्नारकिम् वा विचक्षणः नेमम् लोकम् च काङ्क्षेत देहावेषात् प्रपाम् प्रमाद्यते एतद्विद्वान् पुरा मृत्योरभुवाय घटे स अप्रमत्त इदम् ज्ञात्वा छिद्यमानं मयैरेतै कृतनीरं वनस्पतिम् खगस्वकेतमुत्सृज्य क्षेमम् याति अहो पटः अहोरात्रै बुद्धाम् बुद्ध्वाञर्भवे पथो मुक्तसङ्गपरम् बुद्ध्वा उपशाम्यते निदेहमाद्यं सुलभं सुदुर्लभम् प्लवं सुकल्पं गुरुकर्मसंकर्णधारं मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरे स निर्विन्नो विरक्त संयतेन्द्रियः अभ्यासेनात्मनो योगे धारयेतु चलम् मनः धार्यमाणं भ्राम्यदास्वनवस्थितम् अतन्द्रितोऽनुरोधेन ना मार्गेणात्मवशं नयेत् मनोगतिम् न विसृजेञ्चित् प्रालोजितेन्द्रियः तत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् ते स वै परमो योगो मनसः हृदयज्ञत्वमनुच्छन्नं दम्पस्ये दम्यस्येवार्वतो मुहु